अथ श्री श्रीकाल कर्पूरादिस्त्र ओम श्री नम ओं कर्पूर मध्यमंत्रस्वरपरत सेंदुवामाक्षिुक्त बीजं ते मातरे त्रिपुरहरवधुत्रि कृतम् ये जपन्ति तेषाम् गद्यानि पद्यानि च मुखकुहरा दुल्लसन्त्येव वाचः स्वच्छन्दम् ध्वान्तधाराधरुचिरुचिरे सर्वसिद्धिम् गतान् ईशानसेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशी द्वन्द्वं ते जपति जनो कदाचित् जित्वा वाचामधीशं धनमपि चिरं मोहयन्नं बुजाक्षी वृन्दं चन्द्रार्धचूडे प्रभवति स महाघोरबालावतं से ईशो वैश्वानरस्थः शशिधर वामनेत्रेण युक् ो बीजं ते द्वन्द्वमन्यद्विगलितचिकुरे कालिके ये जपन्ति द्वेष्टारं घ्नन्ति ते वश्यभावं नयन्ति सृक् द्वन्द्वास्रधाराद्वयधर क्षिणे त्र्ती ऊर्धे वा कृपाण करमतलेिन्न मुंडम दधाध सव्ये चाचगद हे दक्षिणे कालिके जप्त्वै तन्नामयेवातवमनुविभवम् वा भावयन्त्येतदम्ब तेषामष्टौकरस्थाः प्रकटितरदने सिद्धयस्त्रियम्बकस्य वर्गाद्यम् वह्निसंस्थम् विधुरति ललितम् तत्र यम् कूर्च युग्मम् लज्जा द्वन्द्वम् च पश्चात् स्मितमुखितधष्टद्वयम् योजयित्वा मातर्ये ये जपन्ति स्मर महिले भावयन्तः स्वरूपम् ते लक्ष्मीलास्यलीला लीला कमलदलदृश कामरूपा भवन्ति प्रत्येकम् वा द्वयम् वा त्रयमपि च परम् बीजमत्यन्तगुह्यम् त्वन्नाम् नायोजयित्वा सकलमपि सदा भावयन्तो जपन्ति तेषाम् नेत्रारविन्दे विहरति कमला वक्त्रशुभ्राम् शुबिम्बे <SDA> वाग्देवी देवि मुण्डस्त्र गतिशयलसत्कण्ठिपीनस्तनाढ्ये गतासूनां बाहुप्रकरकृतकी परिलसन् नितम्बां दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिनयना श्मशान ते तल्पेशवहृदि महाकालसुरत प्रयुक्तां त्वां ध्यायन् जननि जडचेता अपि कविः शिवाभिर्घोराभिः शवनिवहमुण्डास्थिकरैः परं सङ्कीर्णायां प्रकटितचितायां हरवधू प्रविष्टां सन्तुष्टामुपरि सुरते नातियुवती सदा त्वां ध्यायन्ति क्वचिदपि च वदामस् किननी वयुच्चर्जड़ न धाता नपीशो हरिपे वेत्ति पर भक्तिर्मुखरय कमी ते तदेतत्क्षन्तव्यं न खलु पशुरोषः रतासक्तो नक्तं यदि जपति भक्तस्तव मनु विवासास्त्वां ध्यायन् गलितचिकुरस् तस्य वशगाः समस्ताः सिद्धौघा भुवि चिरतरं जीवति कविः समास् सुस्थीभूतो जपति विपरीतां यदि सदा विचिन्त्य ध्यायन्नतिशय महाकाल तदा तस्य क्षोणीतलविहर माणस्य विदुषः कराम्भोजे वश्यापुरहरवधूसिद्धिनिवहा प्रसूते संसारं जननि भवति पालयति च समस्तं क्षित्यादि लयसमये संहरति च अतस्त्वं धातासि त्रिभुवनपतिक् श्रीपतिरपि महेशोऽपि प्रायः सकलमपि किं स्तौमि भवति अनेके सेवन्ते भवदधिक गीर्वाणनि विमूढास्ते मातः किमपि जानन्ति परमम् समाराध्यामाद्यां हरिहर विरिञ्चादिविबुधैः प्रपन्नोऽस्मि स्वैरं रतिरस समहानन्दनिरता धरि त्रिकीरालं शुचिरपि समीरोऽपि गगनम् त्वमेका कल्याणी गिरिशरमणी कालिसकलम् स्तुतिका ते मातस्तव करुणया मामगतिकम् प्रसन्नां त्वं भूया भवमनु न भूयान्मम जनुः स्मशानस्तः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रम् त्वकारम् निज गलितवीर्येण कुसुमम् जपंस्त्वत्प्रत्येकं मनुमपि तव महाकाले स्वैरं स भवति धरित्री परिवृढः गृहे सम्मार्जन्या परिगलितवीर्यं हि चिकुरम् समूलं मध्याह्ने वितरति चितायां कुजदिने समुच्चार्यप्रेम्णा मनुमपि सकृत् काले सततं गजारुढो यातिक्षिति परिवृढः सत्कविवरः स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो पुरोध्यायन् ध्यायन् ध्यायन यदि जपति भक्तस्तवमनुम् स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदी नदीनः पर्यन्ते परमपदलीनः प्रभवति त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदना महाकाले नोत् चैर्मदनरस लावण्यनिरता समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो योऽध्याये जननि सस्यात् स्मरहरः सलोमास्थिस्वैरम् पलमपि मार्जारमसि ते परं चौष्ट्रम् वितरतां मर्त्यवसताम् सतां प्रतिपदमपूर्वा प्रभवति वशीलक्षं मन्त्रं प्रजपति हविश्यासनरतो दिवा मातर्युष्मच्चरणयुगलध्याननिपुणः परं नक्तं नग्नो निधुवन विनोदेन च मनुम् क्षं स्यात् स्मरहरसमानः क्षितितले इदं स्तोत्रम् मातस्तव मनुसमुद्धारणजनुः स्वरूपाख्यम् पादाम्बुजयुगल पूजा विधियुतम् निशार्धं वा पूजा समयमधि वा यस्तु पठति प्रलापस्तस्यापि प्रसरति कवित्वा मृतरसः कुरङ्गाक्षी वृन्दं वशस्तस्य क्षोणीपतिरपि कुबेरप् प्रतिनिधिः रिपुः कारागारं कलयति च तं केलिकलया चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः ॐ इति श्रीकालीकर्पूरादिस्तोत्रं सम्पूर्णम्